अथ ध्यानं कस्तूरी तिलकं ललाटपटले वक्षस्तले कोऽशुभं नासाग्रेवरमौक्तिकं करतले वेणूकरे कङ्कणं सर्वाङ्गे हरिचन्दनं शुललितं कण्ठे च मुक्तावली गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः अस्य स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलं स्रस्तस्रस्तनिबद्धनिविलसद्गोपीसहस्रामृतम् हस्तन्यस्तपतापवर्गमखिलोदारं किशोराकृति यो लीलासल्लग्नो गतो लोलोऽपि लोलतां तं लीलापुसंबालं वन्दे लीलाससिद्धये ॐ नमो भगवते वासुदेवाय श्रीमद्भागवतमहात्म्यम् अथ प्रथमोऽध्यायः सच्चिदानन्दरूपाय विश्वोत्पत्यादिहेतवे तापत्रयविनाशाय श्रीकृष्णाय वयं नमः यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपाय नो विरहकातर आजुहाव पुत्रेति तन्मय तथा तरोऽभिने दुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि नैमसे सुतमासीनम् अभिवाद्य महामतिं कथामृत स्वान्द्रथास्वादकुशलः सौनको ब्रवी सौनक अज्ञानध्वान्तविध्वंसकोटिसूर्यश्वमप्रभ सूताख्याहि कथासारं मम कर्णरसायनम् भक्तिज्ञानविरागाब्दो विवेको वर्धते महान् मायामोहनिरासश्च वैष्णवी क्रियते कथम् इह घोरे कलौ प्रायो देवश्चासुरतां गतः क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणं श्रेयसां यद्भ्रवे श्रेयः पावनानां च पावनं कृष्णप्राप्तिकरं सस्वसाधनं तद्वदाधुना चिन्तामणिर्लोकसुखं सुरृद्रुस्वर्गसम्पदम् प्रयच्छति गुरुप्रीतो वैकुण्ठं योगिदुर्लभं श्रुत्वाच प्रीतिशोनकचित्ते ते शतो वत्मी विचार्य च सर्वसिद्धान्तनिष्पन्नं संसारभयनाशनं भक्त्योघवर्धनं यच्च कृष्णसन्तोषहेतुकम् तदहं ते तेऽभिधास्यामि सावधानतया शृणु कालव्यालमुखग्रासत्रासनिर्णासहेतवे श्रीमद्भागवतं शास्त्रं कलौकीरेण भाषितम् एतस्मादपरं किञ्चिन्मनः शुद्ध्यै विद्यते तन्मान्तरे भवेत् पुण्यं तदा भागवतं लभेत् परीक्षिते कथां वक्तुं सभायां संसिते शुके सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन् शुकं नत्वा सर्वे स्वकार्यकुशलासुराः कथा सुधां प्रयक्षस्व गृहीत्वैव सुधामि एवं विनिमये जाते सुधा प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतं क्व सुधा क्व कथालोके क्व काच क्व मणिर्महान् ब्रह्मरातो विचार्यैवं तदा देवाञ्जहासः अभक्तास्तांश्च विज्ञाय न ददौष कथामृतं श्रीमद्भागवती वार्तासुराणामपि दुर्लभाम् राज्ञो मोक्षं तथा वीक्ष पुराधातापि विस्मितः सत्यलोके तुलां बद्ध्वा तुलियः साधनान्यजः लघुन्यन्यानि जातानि गौरवेण इदं महत् तदा ऋषिगणा सर्वे विस्मयं परमं ययुः मेदिरे भगवद्रूपं शास्त्रं भागवतं कलौ कृष्णाश्रवणाः सद्यो वैकुण्ठफलदायकम् सप्ताहेन श्रुतं चेतस्सर्वथा मुक्तिदायकं शनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः यद्यपि ब्रह्मसम्बन्धाच्छ्रुतमेतसुरर्षिणा सप्ताहश्रवणं विधिः कुमारैस्तस्य भाषितः शौनकुवाच लोकविग्रहमुक्तस्य नारदस्यासितस्य च विधिस्रवे कुतः प्रीतिसंयोगः कुत्र तैः सह सुचतुवाच अर्तयिष्यामि भक्तियुक्तं कथानकं सुकेन यत्प्रोक्तं यत् प्रोक्तं रहशिष्यं विचार्य एकदा हि विशालायां चत्वार ऋषयो वदाः सत्सङ्गार्थं समायाता ददिशुस्तत्र नारदम् कुमारा उचुः कथं ब्रह्मन्दीनमुख कुतश्चिन्तातुरोभवन् त्वरितं गम्यते कुत्र कुतस्यागमनं तव इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः तवेदं मुक्तसङ्गस्य लोचितं वद कारणं नारदवाच अहं तु पृथिवीं जातो ज्ञात्वा सर्वोत्तमा मन्मितिं पुस्तरं च प्रयागं च काशीं गोदावरीं तथा हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् एवमादिषुतीर्थेषु भ्रममाण इतस्ततः नापश्यं कुत्रचिच्छर्म मनः सन्तोषकारकं कलिधानाधर्ममित्रेण धरेयं वाधितायुधा सत्यं नासि तपः शोचं दया दानं च विद्यते उदरं भरिणो जीवा वराकाकुटभाषिणः मन्दासु मन्दमतयो मन्दभाग्याशुपदृताः पाखंडनता सतो विरक्ता सरग्रहाुणी प्रभृता गेह श्यालको बुद्धिद्याणो लोभा दीनाकन आश्रमावनदा देवतायत नान्यत्र दुष्ट ना भूरशा न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः कलिदा नले नाद्य साधनं भस्मतां गतम् अट्टशूला जनपदा शिवशूला द्विजातयः कामिन्यः केशशूल्लिन्य शम्भवन्ति कलाविह एवं पश्यन् कलेर्दोषान् पर्यटन्नव निमहम् यामुनं तटमापन्नो यत्र लीलाहरेरवन् तत्रास्त्यं मया दृष्टं श्रूयतां तन्मुनेश्वराः एका तरुणी तत्र निषण्णाखिन्नमानसा वृद्धौ द्वौ पतितौ पार्श्वे निःस्वसन्तावचेतनौ शुश्रूसन्ति प्रबोधन्ति रुदति च पुरः दशदिक्षो निरीक्षन्ति रक्षितारं निजं वपुः व्यज्यमाना बोध्यमाना मुहुर्मुहुः दृष्ट्वा दूराद्गतः सोऽहं कौतुकेन तदन्तिकं मां दृष्ट्वा चोत्थिता बाला विफुला चाब्रवीद्वचः बालवाच भो भो साधो क्षणं तिष्ठमचिन्तामपि नाशय दर्शनं तव लोकस्य सर्वथागहरं परम् बहुधातो तौ वाक्येन दुःखशां दुःखशान्तिर्भवन् भविष्यते। यदा भाग्यं भवेद्भूरि भवतो दर्शनं तदा नारद्वाच काशी त्वं का विमोचे नार्य का पद्मलोचना वददेवी सविस्तारं स्वस्य दुःखस्य कारणं बालोवाच अहं भक्तिरितिख्याता इमौ मे तनयौमतौ ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ गङ्गाद्या सतिरश्चेमां सेवार्थं समागताः तथापि न च इदानीं शृणु मद्वरं वार्तां सच्चित्तस्त्वं तपोधन वार्तामे वितताप्यस्ते तां श्रुत्वा सुखमावह उत्पन्ना द्रविणे साहं वृद्धिं कर्णाटके गतां क्वचित् क्वचिन्महाराष्ट्रे गुरुचरे जीर्णतां गतां तत्र घोरकलिर्योगात् पाखण्डैः खण्डिताङ्गकाम् दुर्बलाहं चिरं पुत्रा जाता पुत्राभ्यां च मन्दतां वृन्दावनं पुनः प्राप्य नवीनेन स्वरूपिणी जाताहं युवती सम्यक् प्रेष्ठरूपात् साम्प्रतम् इभौ तु सहितावत्र सुतो मे क्लिश्यत श्रमात् इदं स्थानं परित्यज्य विदेशं गम्यते मया जरठत्वं क्षमायातौ तेन दुःखेन दुःखितां साहं तु तरुणी कस्मात् सुवृद्धं विमोकुतः त्रयाणां सहचारित्वाद्वैपरित्यं कुतः सितं घटते जरठा माता तरुणौ तनुयाविति अतः शोचामि वदयोगनिधे श्रीमन् कारणं चात्र किं भवेत् नारदुवाच ज्ञानेनात्मनि पश्यामि सर्वे तत्तवानघे न विषादत्वया कार्यो हरिशं ते करिष्यति श्रुत्वाच क्षणमात्रेण तद् ज्ञात्वा वाक्यमुचे मनेश्वरः नारदुवाच शृणुस्वावहिता बाले योगोऽयं तेन लुप्तसदाचारो योगमार्गतपांसि च जना अभासुरायन्ते साक्ष्य दुष्कर्मकारिणः इह सन्तो विषीदन्ते प्रहिष्यन्ति श साधवः धैर्ये धैर्यं तु यो धीमांस धीरः पण्डितोऽथवा अपृश्यान् अवलोक्येयं शेषभार करिधरा वर्षे वर्षे क्रमाज्जाता मङ्गलं नापि दृश्यते न ना त्वामपि पश्यति साम्प्रतम् उपेक्षितानुरा गान्धैर्जर्जरत्वेन संसितां वृन्दावनस्य संयोगात् पुनरस्त्वं तरुणी नवां धन्यं वृन्दावनं तेन भक्तिनिद्यति यत्र च अत्रैवोगाग्राहकाभावान्न जरामपि मुञ्चतः किञ्चिदात्मसुखे देह प्रसुप्तिर्मन्मन्यते नयोहम् भक्तिर्वाच कथं परीक्षिता राज्ञां सा पितो शुचिकलिः प्रवृत्ते महान। कलौ सर्वसारः कुत्र कथमिच्छते इमं संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम् नारद्वाच यदे पृष्टस्त्वया बाले प्रेमतः प्रश्रवणं कुरु सर्वं वक्ष्यामि भद्रे कस्मलं ते गमिष्यति यदा मुकुन्दो भगवान् स्मां त्यक्त्वा सुपदं गतः तद्दीनान् कलिरायात सर्वसाधनबाधकः दृष्टो दिग्विजये राज्ञादीनवच्छरणं गतः न मया मारणीयोऽयं सारङ्ग इव सारभूं यत्फलं नास्ति तपसा न योगेन समाधिना तत्फलं लभते सम्यक् कलौ केशवकीर्तनात् एकाकारं कलिं दृष्ट्वा सारवः सारणीसमं विष्णुरात स्थापितवां कलिजानां सुखाय कुकर्माचरणासार सर्वतो निर्गतोऽधुनां पदार्था संसिता भूमौ विजहीना सुसायथां भिव्यैर्भागवती वार्ता गेहे गेहे जने जने कारिताकर्णलोभेन कथासारस्ततो गतः अत्युग्र भूरि कर्माणो नास्ति तेऽपि तिष्ठन्तितीर्थेषु तिर्थसारस्ततो गतः कामक्रोधमहालोभतृष्णा व्याकुलचैतसः तेऽपि तिष्ठन्ति तपसि तपसारस्ततोगतः मनसश्चाजयाल्लोभाद्दम्भात् पाखण्डसंशयात् शासानभ्यसनाच्चैव ध्यानयोगफलं गतम् पण्डितास्तु कल कलत्रेण रमन्ते महिषा पुत्रस्योत्पादने दक्षा अदक्षा भुक्तिसाधने न हि वैष्णवता कुत्र सम्प्रदाय पुरःशरान् एवं प्रलयतां प्राप्तो वस्तुसारस्थले स्थले अयं तु युगधर्मो हि वर्तते कस्य दूषणम् अतस्तु पुण्डरीकाक्ष सहते निकटे स्थितः सोतुवाच इति तद्वचनं श्रुत्वा विस्मयं परमं गता भक्तिरुचे वचो भूय श्रूयतां तच्च शौनकं भक्तिर्वाच सुरसे त्वं हि धन्योऽसि मद्भाग्येन समागतः साधूनां दर्शनं लोके सर्वसिद्धिकरं परं जयति जगति मायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमहात्म्ये भक्तिनारसमागमोनां प्रथमोऽध्यायः